अथ प्रथमकाण्डे पञ्चमप्रश्नः प्रारम्भः संयत्तासं देवाभिजित्यां तत्र हिरण्यमभवत्तस्माद्रजिको हिरण्यमदक्षिण्यम श्रजमो योरा ष्टात्मा तस्मात् पाश्चात् पशोच्यन्ते तंराधत्तदेन मरान् मालं यः प्रजा उच्यन्ते संवत्सरं प्रजा पशवानुप्रजायन्ते य एवं पुनराधेयस्यमानः प्रजां स्वपुतोत्रा भारधे समर्थय चान्तिरे पुनर्वस्वराधते पुनराधेयस्य नक्षत्रय पुनर्वसोऽस्तायामेवैनम् देवतायामाधाय ब्रह्मवचने भवति तद्भ्यैराददात्ययादयामत्वाय दद्भ्यैराददात्यभ्य एवेन मोषदेभ्यवर्ध्यासत्ते पञ्चकपालः पुरुकाशो भवति पञ्चवारदवादभ्य एवध्याधत्ते रावा एष यज्ञं पशो नवमतियोद्वासय देवं च कपालः पुरुहासो भवति पान्तो यज्ञः पान्ता पशवो यज्ञमेव पशो नवन्देवि रावा एषु तेन वा एतस्य ब्राह्मणा दायव पुरान्मो याज्ञां भवन्ति पान्तो यज्ञः पान्तः पुरुषो देवानेव वीरन्निरवदा याज्ञम् पुनराधत्ते सुराक्षरा भवन्ति सुधाय पुरुषस्तेश्चेन्द्रिये निराहितो भवन्तिं ब्रह्मैवां नो हि दादृगेवं प्रतिष्ठदं निराह यथा भावम् असु विधानो त्या संभारामित्यथोखसंहृत्या एव संभारा कर्तव्यं पुनर्निष्कृता दक्षिणा पुनरक्ष्यूतम्बासप्नरत्सृष्टा न िह्वा इत्यग्निहोत्रञ्जहोदयत्र यत्रैवन्तेश्चास्यन्मया तौ भागधेयनः भूमिर्भोनार्जोर्वणान्तरिक्षम् महिता पुनश्चेतेवार्कङ्गाय श्रिये तस्य प्राणादपानच्छन्दस्य रतिरोचना यक्षन्महिषस्वर्चा सुकल्पमज्ञोद्वीपयामसि स्य पृथिवी मनुसे आदित्या विश्वे तद्देवासवश्च समापदातुे देवासप्तृषे प्रियाणि सप्तहोत्रादितया स्तेन आदित्या आद्यणाभियन्तयन्तयन्तो ेव पृथिवी मन्नात्योपारमन् वैदामन्नाद्यकारमेव तिष्ठतमाधत्येव यज्ञको सन्दधाति विश्वे देवा इहपादयन्ताः सन्त्रैव यज्ञं देवेभ्यः त्या वा अस्मान्लोकादोकमानहिते पुनराज्ञया यः सहस्रसामृशम् अवादोरे अयमिह प्रथमोधाय धात्रेश्वः त्रम् विभवम् विषे विषेन्द्राग्णामुदेव निर्वृत्यक्षुणाम् अग्ने अग्ने ुजिर्विप्रश्रुजिः कविः श्रीरोचदः आहुतः न्दोमयस्कृतोराव्यम्भिश्च सम्भवद्मे सूर्यस्य वर्चसा गता समर्षीनाम्नार्चाम् मामायुषावर्त्यसा प्रजया सन्वस्यामिप्रजा हमिणसो मानवी सर्वा भवन्तनो गृहे ीणा विशाको रायिस्पोषेण सहस्रभोशम्भुश्यासम्भो रायिश्रेन्तास्त्रम् दयेर्मसि राजन्तवृदस्वशिवभवोष्ठदेश्रवाः पूर्ज्या वः पश्यामि योज्या मा पश्यत राजस्पोषेण वः पश्यामि राजस्पोषेण मा पश्यते रामदः पश्यासं ब्रह्मणस्पते औजम् शरीरशिरेन्द्रस्य आसुषे भोपे नमकन्धो येन्दुवेदानम् देवस्य पृच्छ्यते पुनम् भयम् विक्रमो सहस्य धीमहि त्रिषत्वे दिवे भेत्तारम्भृहः अग्ने गृहपते सुग्रहपतिरन्द्वया गृहपतिनाभूयासु गृहपतिर्मयात्मन् गृहपतिनाभूयाश्चेज्योतिष्मेज्योमती एषयो सायन्तवास्मिवेत्याः प्रजा वै पशुवल्लोकं प्रजामेव पशो दिमल्लोकमुपेत्यस्य प्रत्नामृत्युदमित्याः स्वर्गो वै लोकप्रदस्वर्गमेव लोकसमारोह यज्ञन्मूर्धा मूहर्ताहमेवैरमानाथो देव लोकादेव मनुष्यलोके प्रतिष्ठत्य मुख्यमेवेन करो चुभावामिन्द्राख्य त्याहौ जौपदमेवावृन्देयन्धयो पुरुषो नैवावृन्देष्ठते षड्वार्गवार्गस्वेव प्रतिष्ठते षड्व्यत्तराभिपतिष्ठते द्वादश संवर्धन्ते द्वादशमासा संवत्सर संवत्सर एव प्रतिष्ठते यथा वै पुरुषो श्वोगौर्जीर्यहितो जीव संवत्सरस्येवोपतिष्ठते योग एवाशेषोपतिष्ठते जन्मदे वा शेषोपतिष्ठते याचि वा शेषोपतिष्ठते धात्रे चायन्मे देहि चेदात्म्यो मे देहि चोदाश्चेदाही चोपाध्ये जन्मेनन्दन् महाप्रणय च जन्मे प्रजाहि पशुरामो नन्दन् महापूरये दवा वैद्रासौ स्वस्थे पामशीये च रात्र वैश्चित्राभिश्चैवायश्राह्नावृन्ध इन्द्रास्थायुप्रतिष्ठतेन्द्रियायुष्येवेन्द्रियतिष्ठत्यहस्तवै देवासुरामितमाददा दरिद्रमेवेदच्छदन् प्रातुर्याय प्राग्त्याम्भोयास्मि र्यष मे वेदामसा न्द्रस्याजा एव क्राम्या प्रशस्ता नैवा वृन्दैर्मस्थाम्भो भवक्षीयेत्याः पशो पशो नैवान्पेत्या ध्रुवा एव रूपे वत्समनुष्ठालोकाच्येगात्यमुपदिष्टेऽस्मिन्नेव लोके प्रतिष्ठच्चिभिपतिष्ठदे ते योगैका यत्रितेज एवात्मधेदं नृजमन्वाहसं दत्वत्यं वागारभवत्य उपदिष्टाय ृन्देस्तरे गोराज्ञं वसदेवाः पुत्रस्य न्द्रमेज्योतिष्मदेवीप्रो याजस्य पुत्रो जातश्चात्यर्ये वास्मिन् ज्योतिष्ठदेवी प्रो याजस्य पुत्रो जातश्चात्यर्यवास्मिन् ब्रह्मा दे ञवी जैवानस्यञ्जलि प्रजनने प्रजनस्य भूषणरूपाणि वेकटितेश्व पशु मृत्वा कामा कुर्वत एवं विद्वा लग्निमुपतिष्ठते पशुमान् लोका पुनरिमं लोकमागतां लोकं गमेष्यति वर्ग्यं लोकमगम्यं विद्वानग्निमुपदिष्टोकमेत सर्वमायुरेत्येव तथा गर्वक्तमुपदिष्टते न प्रातस्य गोदिनक्तं वृथा श्रुत्यन्दे सह श्रेयाश्च सा ते ज्यो गर्वाग्निस्तमना कृते न्यक्तमुपदिष्टते ज्योतिष्ठरति वस्थ्येयाज्ञे वस्थेया कि दुटस्या उडी को जहां इसाधान जॉस्त वाब तैनु नौ से घढ सान्ने कोई जोग चाहां आजि उस्ती आला कल्वाण evne vitrik बार्ल गजरते शान्न, dej नूत मुझा जैन्न, 30 षुभिरेति मम नाम प्रथमम् जातवे तत्पिता माता रामः विपरति रामये पुनस्ते नमात्मये प्रतिविद्धाय नृताय नमः ङ्गो वचिमाधातमौयम् भगवत्तसातुर्यम् चमाद्ययोधातुष्टाश्च रोषदय पयस्वधीरोषधयत्पयस्वीरुधाम्पयस्ते नमामिन्द्रक्षके यन्तन्मे राज्यताम् आदेवासु नस्यमानामिन्दुदेवाभि घर्मे कपालः चन्ति वेधसः ओष्णस्तान्य इन्द्रवायो विमुञ्चता भिन्नो घर्मो देवता सर्वे यज्ञस्यन्ति त्रयस्विषत्तरे तस्य ज्योतिषस्वम् अदश्रम् घर्मवीमहे त्वाक्तम् योजम् पारस्वस्य ैश्वानरवाजमोरस्य समुतोस्यामराजाहिकम्भवनामभिश्री जातो विश्वमिदम् विश्वानरोयते सूर्येण वन्दे हेडो वर्णं मोहं विज्ञेयमिरेमे रवते क्षमस्मद्मसरपृजं दौरादन्ने नागमूशीश्रदा कृतामि उदत्तमं वर्णभासं स्मदवाधवं मेमध्यमक्दश्रथाया तथा वेमादज्जमृतेदवानगसोपतितेहस्यामा अधिक्रवन्नो अलकालोचन कृष्णालश्वस्वयिना स्रभिना मुखाकरतपमहालयो सिद्धार्थ आदिक्राश्व सापंचदृष्टे सूर्यै रजजुषावस्तदान धाभवन्दनानि <laughs> ीक्षत्रामजम् देवि प्रोजीगो देवे नास्वरिकाण्डे पञ्चमः प्रश्नः समाप्तः